नमोदुन्दुभ्यायदुन्दुभ्याय नमो नमोदुन्दुभ्याय चतुन्दुभ्याय नमो नमोदुन्दुभ्याय च दुन्दुन्दुभ्याय च चतुन्दुभ्यायदुन्दुभ्याय चाहन्यायाह नन्याय चतुन्दुभ्यायतुन्दुभ्याय चाहन्याय चाहणन्यायाहनन्यायतचाहन्यायतचाहन्यायतचाहन्यायत आहनन्यायतचाहन्याया हनन्यायत नमो नमस्ताहनन्यायाहनन्यायत नमः आह नन्यायेत्या च नमो नमश्च च नमो धृष्णवे धृष्णवे नमश्च च नमो धृष्णवे नमो धृष्णवे धृष्णवे नमो नमो धृष्णवे च च नमो नमो धृष्णवे च धृष्णवे च च च च प्रभृषाय प्रमृषाय च धृष्णवे धृष्णवे च प्रमृषाय च प्रमृषाय प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय च प्रमृषाय प्रमृषाय च नमो नमश्च प्रमृषाय प्रमृषाय च नमः प्रमृषायति मृषाय च नमो नमश्च च नमो दूताय दूताय नमश्च नमो दूताय नमो दूताय दूताय नमो नमो दूताय च च दूताय नमो नमो दूताय च धूताय च धूताय धूताय च प्रहिताय प्रहिताय च धूताय धूताय च प्रहिताय च प्रहिताय प्रहिताय च छप्रहिताय च प्रहिताय च प्रहिताय च प्रहिताय च प्रहिताय प्रहिताय च नमो नमश्च प्रहिताय प्रहिताय च नमः प्रहितायतिप्रिताय च नमो नमश्च च नमो निषङ्गििणे निषङ्गिणे नमश्च च नमो निषङ्गिणे नमो निषङ्गिने निषङ्गिणे नमो नमो निषङ्गिने च निषङ्गिणे नमो नमो निषङ्गिने च निषङ्गिणे च च निषङ्गिणे निषङ्गिणे चेषुधिमत इषुधिमते च निषङ्गिणे निषङ्गिणे चे शुधिमते निषङ्गिण इति ङ्गिने चेषुधिमत इषुधिमते चे शुद्धिमते च च चे शुद्धिमते च च चेषुधिमते च इषुधि मते च चेषुधिमत इषुधिमते च नमो च नमः इषुधिमत इतिषुधि मते नमो नमश्च नमस्तिक्ष्णे शेतीक्ष्णे शभवे नमश्च च नमस्तिक्ष्णेशवे नमस्तिक्ष्णे शेतीक्ष्णे शवे नमो नमस्तिशवे च च तीक्ष्णे शभे नमो नमस्तिक्ष्णेशवे च तीक्ष्णे शवे च च तीक्ष्णे शवे तीक्ष्णे शवे चायुधिन आयुधिने च तीक्ष्णे शभे तीक्ष्णे शभे चायुधिने तीक्ष्णे शभ इति तीक्ष्ण विशभे चायुधिन आयुधिने चायुधिने चायुधिने चा युधिने च आयुधिने चायुधिन चा आयुधिने च नमो णमश्चायुधिन आयुधिने आयु च नमः च नमो णमश्च च नमः स्वायुधाय स्वायुधाय नमश्च च नमः स्वायुधाय नमः स्वायुधाय स्वायुधाय नमो नमः च च नमो नमः च स्वायुधाय च च स्वायुधाय स्वायुधाय च सुधन्वने सुधन्वने च स्वायुधाय स्वायुधाय च सुधन्वने स्वायुधायेतिषु आयुधाय च सुधन्वने सुधन्वने च च च सुधन्वने च सुधन्वने च सुधन्वने च च सुधन्वने सुधन्वने च नमो नमश्च सुधन्वने धन्वने च नमो नमश्चनमस्रुत्या यः श्रुत्याय नमश्च च नमस्रुत्याय नमस्रुत्या यः श्रुत्याय नमो नमस्रुत्याय च श्रुत्याय नमो नमस्रुत्याय च श्रुत्याय च श्रुत्या यश्रुत्याय च पथ्यायपथ्याय च श्रुत्या यश्रुत्याय च पथ्याय चपथ्यायपथ्याय चपथ्याय चपथ्याय चपथ्याय च पथ्याय चपथ्याजपथ्याय च नमो नमश्चपथ्यायपथ्याय च नमः च नमो नमश्च च नमः काट्याय काट्याय नमश्च च नमः काट्याय नमः काट्याय काट्याय नमो नमः काट्याय च च च काट्याय नमो नमः च काट्यायचकाय काट्यायचनी प्यायनी प्यायचकाट्यायकाट्यायचनी प्यायचनी प्यायनी प्यायचनी प्यायचचनी प्यायचचनी प्यायच प्यायच च नीप्यायनी प्यायच नमो नमश्च नीप्यायनी प्यायच नमः च नमो नमश्च नमः सोऽ्यायसोऽध्याय नमश्च नमः सोऽ्याय namas suddhayaso dhyaya so namo namas suddhayachach suddhay namo namas suddhayach suddhayachach suddhayaso dhyaya namo so namas suddhayach sarasyaya so so sarasyayach suddhayaso dhyaya namo namas suddhayach sarasyaya sarasyaya sarasyaya chachasarasyaya chachasarasyaya chachasarasyaya chachasarasyaya chachasarasyaya chachasarasyaya namo namascha sarasyaya sarasyaya chachanamo namascha chanamo madhyayatnaya namascha chanamo madhyaya नमो नाद्याय नाद्याय नमो नमो नाद्याय च नमो नमो नाद्याय च नाद्याय च नाद्याय नाद्याय च वै शन्ताय वै सन्ताय च च च च च च च च च च च वै च च च च नमो नमश्च वै सन्ताय वै सन्ताय च नमः च नमो नमश्च च नमः कोऽप्यायकोऽप्याय नमश्चत नमः कोप्याय च चोप्याय कोप्याय च कोप्याय च वट्याय फट्याय फट्याय च कोप्याय कोप्याय च कोप्याय च फट्याय च वट्याय फट्याय च चा फट्याय च चा वट्याय च चा फट्याय च अवट्याय चावट्या या वट्याय च नमो नमश्चावट्या या वट्याय च नमः स नमो नमश्च नमो वर्ष्याय वर्ष्याय नमश्च नमो namo varshaya varshaya namo namo varshaya chach varshaya namo namo varshaya ch varshaya chach varshaya varshaya cha parshaya parshaya ch varshaya varshaya cha varshaya यच अवर्ष्याय च वर्ष्याय वर्ष्याय च नमो नमश्च वर्ष्याय वर्ष्याय च नमः चनमो नमस्च चनमो मेख्याय मेख्याय नमस्च चनमो मेख्याय नमो मेख्याय मेख्याय नमो नमो मेख्याय चच मेख्याय नमो नमो मेख्याय चच ध्याय च मे ध्यायमे ध्याय च विद्युत्याय विद्युत्याय च मे ध्यायमे ध्याय च च विद्युत्याय च च च च च विद्युत्याय च च च च च च च विद्युत्यायत च विद्युत्याय विद्युत्याय च नमो नमश्च विद्युत्याय विद्युत्याय च नमः विद्युत्यायेति विद्युत्याय च नमो नमश्च च नम ईध्रियायेद्ध्रियाय नमश्च नम ईध्रियाय नम इध्रियाये ध्रियाय नमो नम इ ध्रियाय चेद्धियाय नमो नम इञ ध्रियाय च इध्रियाय चेद्ध्रियाये ध्रियाय च तप्याय तप्याय चेद्ध्रियाय ध्रियाय च तप्याय चातप्यायातप्यायच च तप्यायच च तप्यायच च तप्याय च आतप्यायच च तप्यायातप्यायच नमो नमश्चातप्यायातप्याय च नमः आतप्यायेत्याः तप्याय च नमो नमश्च च नमो वात्याय वात्याय नमश्च च नमो वात्याय नमो नमो नमो वात्याय च वात्याय नमो नमो वात्याय च vātyāya ca vātyāya vātyāya ca raśmīyāya yareśmīyāya ca vātyāya vātyāya ca raśmīyāya ca raśmīyāya yareśmīyāya ca ca raśmīyāya ca raśmīyāya ca raśmīyāya ca raismi yaya cha rahmi yaya cha namo namasha cha rahmi yaya cha namah cha namo namasha cha namo vast havya va ast havya cha namo va ast yerde नमो वास्तव्याय वास्तव्याय नमो नमो वास्तव्याय च वास्तव्याय नमो नमो वास्तव्याय च वास्तव्याय च वास्तव्याय वास्तव्याय च वास्तुपाय वास्तुपाय च वास्तव्याय वास्तव्याय च वास्तुपाय च वास्तुपाय वास्तुपाय च च वास्तुपाय च च वास्तुपाय च च वास्तुपाय च स्तु पाय च वास्तु पाय वास्तु पाय च वास्तु पायेति वास्तु च <tip गला> नमो दुम् दुभ्याय दुम् दुभ्याय नमो नमोदु दुभ्याय च दुम्